अथ द्वितीयाष्टके सप्तमः प्रश्नः प्रारम्भः ओमा भवति वै त्रिवृध्यसमेवावृन्धे अग्निष्ठामः ब्रह्मवत्यसं वाग्निष्टामः ब्रह्मरजसमेवावृन्धे रथन्धरमो सामवति ब्रह्मवर्जसं रोधाम् गच्छेयमिति स एतम् बृहस्पतिसमवश्चेनायुजता ततोपि च देवानाम् रोधामगच्छामः स बृहस्पतिसमेन क्रोधामेव गच्छति अस्य प्रातः वने सन्निवेश नाराशिपुंसेषु एकादशदक्षिणानीयन्ते एकादशमाद्यन्दिने सवने सन्निवेशनाराशिपुंसेषु एकादश तृतीय सवने सन्निवेश नाराशिपुंसेषु त्रयस्त्रिविंशत्सम्पद्यन्ते त्रयस्त्रिविंशद्वयि देवताः देवता एवावन्धे अश्वस्य चतुस्त्रिपुंसः राजावृत्यो वांशो देवतानाम् एवावृन्दे कृष्णाजिनेऽभिषिञ्जति ब्रह्मणो वा एतद्रूपम् त्रिकृष्णार्जिनम् ब्रह्मवर्तसेनैव समर्थयति आद्येनाभिषिञ्जयति तेजोवाराद्य तेज एवास्मिन् दधाति यथा नेया भवति अग्निमुखाह्यर्थि अथयत्पौष्णः पुष्टिर्वैपूषा पुष्टिर्वैश्यस्य पुष्टिमेवावृन्धे असवायसा वित्रः तथयत्पाष्ठः ष्टाहिपाणि विकरोति त्रिवर्णप्रायवारिणः अथो एव कथ्यसन् श्रूयतेणः अथयद्वैरीश्वदेवः वैश्वदेवो य वैश्यः अथयन्मारुतः मारुतोैष्य सप्तैदानी अवेगंशुभवन्ति सप्तगणा वै मृदः पुष्णिः पश्चा हीमारुत्या लभ्यते यद्वै मृदः मध्यतो विशिद्यते तस्मात् एष विषःप्रियः विश्व रत्नाभिषिजतिनार्थतिनाग् समर्थयति यदा वै प्राणः अथम्यः प्राह्मणैव सा वित्रः अथयद्बारः एतद्वै प्राह्मणस्य वाक्मीयम् सोमीयः वाग्ेयो वै प्राह्मणः तौ यदा सङ्गच्छेते तथ वीर्यावत्करो भवति अथयत्सारस्वतः केदद्धि प्रत्यक्षम् ब्राह्मणस्य वात्मदीयम् निर्वत्वायैव वा पृथिव्यः इन्द्रोत्रायच्छत् तञ्ज्या वा पृथिवीनान्वमन्येताम् तमेतेनैव भागधे येनान्वन्येताम् वज्रस्य वा एषोऽनुमानायवज्रसूया अष्टावेदानि भवन्ति अष्टाक्षरा गायत्री ब्रह्मवर्चसम् गायत्री ब्रह्मवर्चसमवृन्धेरण्येन तेजस एव रचेर् कृष्णादिनेऽभिषिञ्चति ब्रह्मणवा यतदृत्सामयो रूपम् यत्कृष्णादिनम् ब्रह्मण्येवैनृत्सामयोरति कृते नाभिषिञ्चति ै रे दोधाः रे तत् एवास्मिन् सुवर्षां स्वामृजनस्य गोपाम् सदेव सवः देवा ैश्च प्रजावाचन्तिमेवम् वेद नाराजकृ मनुष्या वैदराशिंसृह्ैतञ्च राजसूयमनत्र वैदिकम् तत्सर्वम् भवति यमेवम् जाचितम् अश्वानागमनाम् षट्त्रिवंश उक्वरुणस्वः प्रजापतिस्वाराज्यम्बरमे भवतः वाराज्यम्क्षिणाेवणन्तरहितमभिषिञ्चति रषु स्तोम वा एषः गोसवः षक्तिंसः सर्वः प्रेमज्ञादस्सहसावृथः क्षत्राणाम् ृताक्राह्मणे सुभगा जान सा न संविधाना या राजन्यभावायुतायाम् अश्वस्य कन्दे पुरुषस्य मायौ इन्द्रञ्जादेवी सुभगा जान सा ्राडसि सुराडसि इन्द्रायित्वा देश्वमिष्वन्दश्रीणामि इन्द्रायित्वा पयुस्वदे वस्वन्तीणामि तेजोसिमि तेजस्वदस्तु मे तेजस्वानश्व तेजसादं ओजोषि तत्ते प्रयच्छामि ओजस्वदस्तु मेमुखम् ओजस्वच्छिरोऽस्तु मे ओजस्वाननुष्वदकृत्यङ् ओजसातम्भविर्घ्मा अयोसि तत्ते अयस्वदस्तु मेमुखम् अयस्वक्षिरोऽस्तु मे अयस्मान् विश्वतप्रत्यङ्ग अयसाम्भ्यमायुरधि तत्ते प्रेच्छामिस्तु मे आयुष्मान् विश्वतप्रत्यङ्ग आयुषासम्भवृद्धिमायुषेवास्मादिश्वे आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि प्रत्यङ्ग्योतिष विभो अपां यो द्रवणेरस तायनाय ब्रह्मवर्जसाय उह्नामि अपायपूर्णो रसा मः स्मायणाय वीर्याय गृह्णामिस्मामुष्यायणाय प्रजनाय गृह्णामि अपायज्ञयोरसः तमःष्यायणाय आयुषे दीर्घायुक्ताय गृह्णामि अभिप्रेहिष्वस्वेत्तावत्नः आदिष्ठमित्रवर्धनः तुभ्यम् देवाधिक्रुवन् अङ्गोऽन्यङ्गावहित आदिष्ठवत्र आदिष्ट नाम आविश्वरूपोत्तनुबृस्ति अनसो मोहनृग्निरावीत् अनुत्वा विश्वे देवावन्दो अनुसत्तराजानो याभिषिक्ताःत्या वा पृथिवीश्वशम्भु सूर्योत्वात् एतम् प्रजापति स्वान् भूताम् प्रजा उपावर्तन्त अन्नमेवर्तन्ते ्यवृन्धे सर्वान् पुरुषान् यद्धिरण्यम् ददाति ते दस्तेनावृन्धे यत्तिसृधन्वम् एकन्देन यदिष्टाम् उष्न तत्कमण्डलम् आयुष्टेन तद्धिरण्यमा बद्धादि ते ज्योतिर्वैहरण्यम् ज्योतिरेण एव रोहिणी तस्मादेव सूर्येण कार्यः उद्यन्तम् वा एतत्नन्दन्ति दर्शिनीयो भवति एवं वेदवादिना वदन्ति अवेत्य इति यद्गर्भवम् जीवैः पवैति तस्य देवा वैति वे तन्ना वेतिः पवयति अये इमे लोकाः एभिरेवेणम् लोकैः पवैति अथवा अपाम् वा एतत् तेजो वर्त्य यद्गर्भाः तद्दर्भवम् जीवैः पवैति एतम् वञ्जशारदीयो पश्यतमाहरैत भामयद्भूया स वञ्जशारदीय नूयान् भवति मरुतो हि देवानाम् भूयिष्ठाः भवद्भवति एतेनैजते युजेनमेवम् वेद वञ्जशारदीयो भवति वञ्जमार्दवः संवत्सरः प्रदश्वेवसंबत्सरेप्रदिर्षवि नदो भंजा आक्षणा भंगी आंको एक्ना इक्ना एक मामरंदे सब्तव्त शब्रस्थ तो माना दींदी सब्तव्त प्रजाबदी प्रजाबदे राप्टी प्रस्थ्यो मुष्न फ्रोक्षद पानिंग आधत्ता ते नम� तस्मादे भवन्ति ते प्रथमे हन्नालभ्यन्ते एवम् द्वितीये एवम् द्वितीये एवञ्च दुःखेतमे हन्नालभ्यन्ते वरिशिष्ठस्य मानानाम् भवति एतेन ये एवम् वेद स्वाराध्यं वा एतेन वा एतेन योजेने योजेनमेवं वेद पञ्च शारदी यो वा एष यज्ञमात् पुरुषादम् ये एतेन योजेन एवं वेद सप्तदश्रस्तो माना ेवनैति अस्याजनाः पावकाः श्वात्राणि वायमित्रा वरुणा इदा देवाकमृतम् बृहद् अग्ने सन्दमम् अश्विनापि पुदृकं सुतम् दीत्यग्ने श्रुतिवृता वृतनायज्ञमासे विरूपेदस्वच्छरे कन्यान्यासमु हरिरन्यस्याम् भवति स्वधावाः शुक्रो अन्यस्याः पूर्वारञ्जरीशो यात्वारम्पर्यन्न औक्षम् कृते बर्हिरस्मै आदित्वा्यसादयन्त अग्निनाग्निः समिध्यते अविर्ग्रहवर्युवाः यत्त्वा वमेत्रा उतवान्मस्य अग्ने वित्ताध्यविषो यः क्रीडे अग्निग्रस्वपसन्नामि आप्रसता विलेक्रतन्ना, अजेरवप्रवादिक्त्षि, प्रदक्षनिन्मर्ध अंगुत्मुद्या, सुधिस्क्रुक्र्न नविधि, भई रकने जियावदि, आदि इंत परिशि, वित्वण वर्णोर नियमा, अधर्यावान धरं, श्वेजामृतिनियाना, श्वेजाम� ुजम् नस्वाहारि मातेमदायास्योषासुते सदा ऋक्ता अनुशोर्णद प्रहागोमपीदेये नर्ममयं महाधने नर्मदेहवामे यमृत्रेश्वतिनम विदायो वरन्दमह एदेन्द्रस्य चक्रद उपनो हरिविश्वतम सलोरागनेयं जोदरन्द्रम अयाधियात्रन रक्तवरवाह अध्यन दुष्मये नवमानोर्कये किसुधा असराद्रमेहा भयज्ञ ैत्योगवाणाः <laughs> पूर्णा इन्द्र क्षमतो भोजनस्य प्रसवे चेत् पराञ्जायिन् तान्विष्टोमे नाप्नोद तान्त्रेनाप्नोहद तान् षोडशिनानाप्नोद तान् रात्रियानाप्नोद तान् सन्धिनानाप्नोदमप्रवीद इमान्म ईप्सेति तानुग्निस्त्रिभुतास्तो मेनाप्नोति तानिन्द्रः पञ्चदशेन सविश्वान्स्रप्त इमान् न ईप्सेति तानुष्णरेखविघ्नशे नस्तो मेनाप्नोनाव एतेन यदाप्नुवन्नाप्नोतिप्रविष्टा ऋषीणाम् पुत्राभिषत् शिवायिम् नमस्कारे रणपसा दे होमि दे दे मा देवानाम् विजयाकर्मभागम् सा वेदीरेव अर्ष्माणवस्मै परिमाणवस्मै अथस्मभ्यमो सवितः सर्वदा दिवेदिवसु वाभूरिपशः प्रविष्टः तस्य मृत्यो विश्वरूपामघ्नैहवत्यसा समन्धि हेभिरादित्यस्तप्रगेतुभिः पुष्कलम् चित्र्याह्कम् तस्मिन् राजा नव्यसि व्याघ्र्याघ्रे राष्ट्रवर्धनः <laughs> तथा ष्टुभेन छन्दसा आदित्यास्त्वाषिञ्चन् छन्दसान्त्वाष्टुभेन छन्दसादुपाङ्गेन छन्दसा कर्मन्त्वावृगमुग्रन्थजङ्करम् रोचमानम् मरुतामग्रे अत्रिषः सूर्यवन्दमम् भगवान् विषासहिम् क्षेषु नामजीवसेनः श्रवयुवा श्रुतम् मे मित्रावरुणाहवेदः बाहूपावहरामि विहिप्रेहि विहरैः स् विग्रश्चेत्तासपत्नः आदिष्टवृत्तहन्तः तुभ्यम् देवाधिक्रमन्न अङ्कौन्यङ्काभिहितोक्रमण सञ्चरन्तौ ीन्द्रेव योश्व द्योश्चत्वापृथे च प्रचेतसा शुक्लाक्षिणाभक्तोनाम् राजासेनघोषाराहीष्टा पिन्वमाना योपदिमन्तु तन्माता पृथिवी तत्पिताद्योः तत् रामायणस्वामसुतोमयो भवः तदश्विनाशृतसौभगा इवम् अवदे व्याघ्रम् परिषस्वजानाः स्वगो हते सौभगाय समुद्रन्न सुहूवन्दस्थिवागुंसम् एद्वीपदमप्सन्दः सावेतसूर्यः वचः उदिहि देवसूर्या सह अहम् वाचोऽभिवाचनम् मयि भागस्तु ृशन्तु अन्नवदामो ददामिक्षवतानः प्रथमा एतद् तथा धाताकरोभ्यमिन्द्रो बृहस्पति सवितान् ीष्पमश्चातो तेनायजतन्विघ्नस्य विघ्नत्वम् आत्मानम् एतेन योजेन एवम् वेदा यगुराजानं विशोनापजायेत्मना स्मै विश्वालिम् एवम् वेदाग्रे क्षत्राण्यादेक्षत्राणान्नक्षत्रत्वम् ्यः एवञ्चन्दाेश्वसा बृहदीहन् हृदयावशिरसाने तेवा ऋक्षक्ता विष्टवते इذकर्मै क्षत्रम विशां जीवेन क्षत्रेण इतिचदि ऋक्षक्ता विष्टवते इذकोवै ग्रामणि सजादे सजादे रेवेनम इतिचदि ऋक्षक्ता विष्टवते इतिशक्तो वै पुरुषः आत्महि ऋक्षक्ता भरेवास्य वात्मना अनुदते इति द्वितीयष्टके सप्तम प्रश्नसमाप्तः